भद्रङ्गर्णेभि शृणुयामदेवा भद्रं वश्ये मा क्षभिर्ययत्रा स्थिरैरङ्गैस्तुष्ट्वामुसस्तनूभिर्यसे मदेवहितं यदायुः भ द्रङ्गर्णेभि शृणुयामदेवा भद्रं वश्ये मा क्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्ट्वासस्तनूभिर्यसेमदेवहितं यदायु भद्र द्रङ्गर्णेभि शृणुयामदे॒वा भद्रं पश्येमाक्षभिर्यजत्राः स्थि॒रै॒रङ्गैस्तुष्ट्वासस्तनूभिर्यसेमदेवहितं यदायुः